मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायम् सेवन्टीन् पुलहोपदेशवर्णनं श्रीगणेशाय नमः मुद्गल उवाच ऋषभेण कृताचर्या नानायोगप्रकाशिनी आदौ तां भूमिपो दृष्ट्वा दुर्बुद्धिः सदुतं भ्रष्टकर्ममार्गं विमुच्य वै पशुवत् धर्महीनांश्च कारयामास मानवान् जैन माघसमुत्पन्नस्तदादिश्च प्रजापदे भरतेन संचन्नो सञ्छन्नो स एव कलिकाले वैभविष्यति गृहे गृहे नरास्तम सङ्गृहीष्यन्ति कलिदोषेण संयुताः वृषभेण गृहं त्यक्त्वा धृतः संन्यासिना महान् गृहस्थैः सन्धृतो मार्गो नरकप्रद उच्यते ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः राज्यम् चकारधर्मेण रञ्जयन् सकलाः प्रजाः पुत्रे राज्यम् समर्प्यासौवनम् व्यादो महायशाः तत्र देहम् क्रमेणैव तपसा शोषयन् स्थितः शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः तताप तप उग्रं स राजा परमधर्मविदयेकदासनदीतीरे संस्थितस्तर्पयन् विदृन् आगस्मात् सिंहसन्नादो बभूव भयदायकः तं श्रुत्वा हरिणी तत्रान्तर्वत्नी सहसा स्वनम् उत्पपादनदीं तां वैभयेन च पलायत उत्पतन्त्या नदीतो गर्भस्तस्याः पपातः सापि दूरे ययौ तत्क्षणाद भरदेन मृगो बालो संधृदो भवद करुणायुधचित्तेन पालितश्च स यत्नदः ततो मृगशिष्यौ तस्य प्रीतिर्जादा महात्मनः लालयामासभावेन केलयामास भूमिपः क्रमेण प्रगदम् सर्वं कर्म तस्य मृगे चासक्तचित्तस्य सङ्गदोषमपश्यतः एकस्मिन्दिवसे सोऽपि मृगो मृगसमन्वितः ययौवनान्दरे कुत्र न ज्ञातः साधुना मुनान् भरतस्त मृगम् तत्र न ददर्श यदा प्रभो तदा दुःखसमायुक्तो बभ्रामस वने वने न ददर्शमृगं कुत्र विललापमहीपतिः नित्यं शोकसमायुक्तकालेन सममारच मरणेशमृगस्तेन सन्दृष्टस्वसमीपगः बभूव मृगयोनौ सङ्गदोषप्रभावदः तत्र पूर्वतपोभिश्च पूर्वजातिस्मरो भवद ज्ञानयुक्तस्वयं सङ्गात्सभीदो विचचारह, मृगसङ्गं परित्यज्य पूर्वाश्रमे ततः तत्रा हिंसा भाव द्वन्द्वभावपराङ्मुखः शुष्कं तृणादिकं भक्षन् सोस्मरद्विष्णुमव्ययम् तीर्थस्नानं तदा कुर्वन् साधु ये कदा वनमध्ये स मृगो बभ्रामलीलया अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमं मुनीश्वरास्तत्र केचिदवसंस्तत्परायणाः महाभागास्तपोयुक्ता गणेशभजनेरदाः तत्रात्सौ मृगजाधिस्थो भरदो मुनिः सन्निधौ वासं चकारसंहृष्टः साधु सङ्गपरायणः एकदा ब्रह्मदेवोध जगामपुलःश्रमम् तम् दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तम् पिधामहम् तम् सम्पूज्यमहाभक्रिया पुलः सर्वसंयुधः तोषयित्वा स्वयम् देवम् पादसंवाहने स्थितः परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुधः आदिदेवम् महाभागम् गाणपत्यम् स्वभावदः पुलः उवाच तादुःखयुताः सर्वे जन्तवः केन भोगिनः मोक्षिणो ब्रह्मभूताश्च जायन्ते तद्वदस्व मुद्गल उवाच पुलकस्य वच श्रुत्वा प्रभो दादा तमब्रवीद पुत्रं विनाय संयुक्तं कृद प्राञ्जलिमास्थितम् ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि यत्पृष्ठं मे त्वया परम् तत्सर्वम् सर्वपापघ्नम् शान्तिमार्गप्रकाशकम् विघ्नराजमनादृत्य नरा दुःखसमन्विताः जायन्ते सर्वलोकेषु विघ्नयुक्ता भयातुराः यद्यद्दुःखकरं तत्तद्विघ्नरूपं न संशयः नरकादिमहाघोरं विकर्मफलदं मदं कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मदं तदेव दुःखरूपं त्वं पुत्रजानीहि निश्चितं स्वर्गेषु द्वन्द्वभावश्च विद्यते नात्र संशयः स्त्री पुं युक्तं तथा विघ्नं मोहदं पश्यतस्थितं दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् उत्पत्तिनाश्च ब्रह्माण्डं सकलं मदं त्रिगुणादिव्यथायुक्तम् विघ्नेनग्रसितं स्म अकर्मणानरो मोक्षं लभते नात्र संशयः स एव विघ्नसंयुक्तो मोक्षश्च शृणुतं सुत देही देहैश्च दुर्भिश्च मोहितो बन्धनं गतः स सा एव साधनं कृत्वा बन्धहीनः प्रजायते मोहेन युक्तो देही सर्वत्र सम्मदः तदेव विघ्नरूपं च तत्र प्राप्तं महामदे देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकं विकल्पेन द्विधाभूदं स्वद उद्धानसंज्ञकम् निर्विकल्पेन योगेन स्वमहीं निष्ठितं तदेव विघ्नसंयुक्तं विकल्पयुध हीनदः सांख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते अस्वात्मनिष्ठमन्यच्चेत्तदा स्वात्ममयं भवेद् स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकं समुत्पन्नं महाभागनकृतं त्वपि तदेव विघ्नरूपं चाप्यपरोद्धानभावतः साङ्ख्यं ब्रह्मणसन्देहो बीजमुद्धनधारकं सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् अदो योगिभिरत्यन्तम् आनिदं न कदाचन स्वानन्दं ब्रह्म प्रोक्तं समाधेरूपधारकं तत्र स्वकीयः संयोगस्तदा कारेण जायते सर्वाभेदस्वरूपेण संयोगात्मक उच्यते स्वसंवेद्यात् परं नास्ति संयोगाभेददायकम् तदेव योगिभिस्तस्मात् कथितं विघ्नसं युधं तस्माज्जातमिदं तत्र योगेनाभेदतां गतम् अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् अतो न मान्यतां प्राप्तं शान्तिमार्गेषु सर्वदा ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् न तस्य कस्यचिद्योगस्तत्र कुत्रापि नो भवेद् ब्रह्मभिन्नमयोगाख्यमदो विघ्नसमाकुलं व्यतिरेकात्मको दोषो ख्यशान्तिकर उच्यते संयोगित्वमयोगत्वं त्यक्त्वा शान्तिमवाप्स्यसि तत्र विघ्नविहीनत्वं प्राप्तं पुत्र संशयः चित्तभूमिस्वरूपं यत्पञ्चधा त्यजविप्रपयोगाभेदस्वरूपस्त्वं भविष्यसि न संशयः पञ्चधा चित्तरूपा वैबुद्धिर्माया प्रकीर्तिता पञ्चधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यदे तत्र बिम्बं गणेशस्य पतितं योगरूपतः द्वैधं मयायुधं प्रोक्तं बिम्बभावं त्यज प्रभो आदौ पुरा मया पुत्रकथितं कुलदैवतं गणेशरूपमस्माकं त्वयाराधितमादराद तेन त्वं पात्रभूतश्च अधुना कथितं पुत्रपूर्णशान्तिस्वरूपकं शान्तियोगेन नित्यं त्वं तं भजस्वविधानदः भवितासि गणेशानस्तदा वैनात्र संशयः एवमुक्त्वा स्वयं ब्रह्मान्तर्दधे सप्रजापदे पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्रीम्न्म उगले महापुराणे द्वितेक दचरिदे पुहोपदशवर्णन नाम सप्तशोध्याय ओम।